नमः परमात्मने श्रीगुरुभ्यो नमः हरिः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यङ्करवावहै तेजस्विनावधीतमस्तु माविद्विषावहै शान्ति शान्ति शान्तिः अम्भस्य पारे भुवनस्य मध्ये नाकस्य पृष्ठे महतो महीयान् शुक्रे न ज्योतिगुंषि समनुप्रविष्ट प्रजापतिश्चरति गर्भे अन्तः यस्मिन्निदगुंसञ्च विचैति सर्वञ यस्मिन् देवा अधिविश्वे तदेव भूतम् तदुभव्यमा इदन्तदक्षरे परमे व्योमन् एनावृतम् खञ्च दिवम् महीम् च येनादित्यस्तपति तेजसा भ्राजसा च कवयो वयन्ति यदक्षरे परमे प्रजाः यतः प्रसूता जगतः प्रसूतीतो येन जीवान्व्यससर्जभूम्याम् यदोषधीभिः पुरुषा आन्पशूगुश्च विवेशभूतानि चरा चराणि अतः परन्नान्यदणीयसगुं हि परा आत्परं यन्महतो महान्तम् यदेकमव्यक्तमनन्तरूपम् विश्वम् पुराणन्तमसः परस्तात् तदेवदु सत्यमाहुस्तदेव ब्रह्मपरमङ्कवीनाम् इष्टापूर्तम् बहुधा जातम् जायमानम् विश्वम् बिभर्ति भुवनस्य नाभिः तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमा आ तदेव शुक्रममृतम् तद्ब्रह्म तदापः स सर्वे निमेषा जग्निरे विद्युतः पुरुषादधी कलामुहूर्ता काष्ठा आश्चाहोरात्राश्च सर्वशः अर्धमासामासा ऋतवः संवत्सरश्च कल्पन्ताम् स आपप्रदुघे उभे इमे अन्तरिक्षमथोऽसुभः नैन मूर्ध्वम् न तिर्यञ्चन्नमध्ये परिजग्रभत् न तस्येषे कश्चन तस्य नाम महद्यशः न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् हृदामनीशामनसाभिक्लृप्तो य एनम् विदुरमृतास्ते भवन्ति अद्भ्यः सम्भूतो हिरण्यगर्भ इत्यष्टौ एष हि देवः प्रदिशो नु सर्वाः पूर्वो हि जातः स बुगर्भे अन्तः स विजायमानः स जनिष्यमाणः प्रत्यङ्मुखा आस्तिष्ठति विश्वतोमुखः विश्वतश्चक्षुरुत विश्वतो हस्त उत विश्वतस्पात् सम्बाहुभ्यान्नमति सम्पत त्रैर्द्या वा जनयन् देव एकः वेनस्तत्पश्यन् विश्वा भुवनानि विद्वान्यत्र विश्वम् भवत्येकनीलम् यस्मिन्निदगुम् सञ्च विचैकगुम् स ओतप्रोतश्च विभुप्रजासु प्रतद्वोचे अमृतन्नु विद्वान् गन्धर्वो नामनिः तङ्गुहासु त्रीणि पदानि स नो बन्धुर्जनिता स विधाता धामा निवेदभुवनानि विश्वा यत्र देवा अमृतमानशानास्तृतीये धामा अन्यभ्यैरयन्ता परिद्या वा पृथिवी यन्ति सद्यः परिलोकान् परिदिशः परिसुवः ऋतस्य तन्तुम् विततम् विच्रित्य तदपश्यत्तदभवत्प्रजासु परीत्यलोकान्परीत्यभूतानि परीत्य सर्वा आ प्रदिशो दिशश्च प्रजापतिप्रथमजाहृतस्यात्मनात्मानमभिसम्बभूव स दसस्पतिमद्भुतम् प्रियमिन्द्रस्य काम्यम् स निम्मेधामयाशिषम् उद्दी एप्यस्वजातवेदोपघ्नम् निरृतिम् मम पशुगुश्च मह्यमावह जीवनञ्च दिशो दिशा मानो हिगुंसी जातवेदो गामश्वम् पुरुषम् जगत् अबिभ्रदग्न आगहि श्रिया मा परिपातय पुरुषस्य विद्मसहस्राक्षस्य महादेवस्य धीमहि तन्नो रुद्रः प्रचोदया आत् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदया आत् तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदया आत् तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि तन्नो गरुडः प्रचोदया आत् कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गिः आत् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् सहस्रपरमा देवी शतमूला शताङ्कुरा सर्वगुंहरतु मे पापम् दूर्वा दुःस्वप्ननाशनी अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुंधरा शिरसा धारिता देवी रक्षस्व माम् पदे पदे उद्धृता शिवराहेण कृष्णेन शतबाहुना भूमिर्धेऽनुर्धरणि लोकधारिणी मृत्तिके haname मे पापम् यन्मया दुष्कृतम् tvaya त्वया हतेन पापेन जीवामि शरदशतम् मृत्तिके देहि मे पुष्टिम् त्वयि सर्वम् प्रतिष्ठितम् गन्धद्वारान्दुराधर्षाम् नित्यपुष्टाङ्करीषिणी इम् सर्वभूतानाम् तामिहोपह्ये श्रियम् हिरण्यशृङ्गम् वरुणम् प्रपद्ये तीर्थम् मेदे यन्मया भुक्तमसाधूनाम् पापेभ्यश्च प्रतिग्रहः कर्मणा वा दुष्कृतम् कृतम् तन्नयुन्द्रो वरुणो बृहस्पतिः सविता च पुनन्तु पुनः पुनः सुमित्रा सन्तु दुर्मित्रास्तस्मै भूया अस्मान्द्वेष्टियम् च भयन् विष्मः न मोऽग्नये एप्सुमते न मयुन्द्राय नमो वरुणाय यदपाम् क्रूरम् यदमेध्यं यदशान्तम् तदपगच्छतात् अत्याशनादतीपानात् यच्छ उग्रात् प्रतिग्रहात् तन्मे वरुणो राजा पाणिना आह्यमर्शतु सोऽहमपापो विरजो निर्मुक्तो मुक्तगिल्बिषः नाकस्य पृष्ठमारुह्य गच्छेद्ब्रह्म इमं मे गङ्गे यमुने सरस्वति श्रुतुद्रिस्तो मगुंस च तापरुष्णीयाम् असिक् नियामरुद्भृदे वृतस्तयार्जिकीये शृणुह्या सुषोमया ऋतम् च सत्यम् चाभी इद्धात्तपसोऽध्यजायत ततो रात्रिरजायत ततः समुद्रो अर्णवः समुद्रादर्णवादधिसंवत्सरो अजायत अहो रात्राणि विदधद्विश्वस्य मिषतो वशी सूर्या चन्द्रमसौ धाता यथा पूर्वमकल्पयत् दिवम् च पृथिवीम् चान्तरिक्षमथोऽसुभः यत्पृथिव्यागुम् रजस्वमान्तरिक्षे विरोदसी इमागस्तदापो वरुणः पुनात्वघमर्षणः भव्ये भुवनस्य कोप्ता येष पुण्यकृताल्लोका नेष मृत्योर्हिरण्मयम् द्यावापृथिव्योर्हिरण्मयग्गुस्सग्गुःश्रुतगुस्सुवः स नः सुवः सगुं शिषाधी आर्द्रञ्ज्वलति ज्योतिरहमस्मि अकार्यकार्यवकीर्णिस्तेनो भ्रूणः गुरुतल्पगः वरुणोपामघमर्षणस्तस्मा आत्पापात् प्रमुच्यते रजो भूमिस्त्वमागुम् रोदयस्व प्रवदन्ति धीरा आः पुनन्तु ऋषयः पुनन्तु आक्रान् समुद्रप्रथमे विधर्मम् जनयन् प्रजा भुवनस्य राजा वृषा पवित्रे अधिसानो अव्ये बृहत् वावृधे सुवान इन्दुः जातवेदसे सुनवामसोममरातीयतो निदहाति वेदः स नः पर्षदति दुर्गाणि विश्वा नावेवसिन्धुन्दुरितात्यग्निः मग्निवर्णान्तपसाज्वलन्तीम् वैरोचनीम् कर्मफलेषु जुष्टा आम् दुर्गाम् देवीगुं शरणमहम् प्रपद्ये सुतरसितरसे नमः अग्ने त्वम् पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा आ पूश्च पृथ्वी हुलान उर्वी भवातोकायतनयायशञयोः विश्वानिनो दुर्गः जातवेदः सिन्धुन्न ना अग्ने अत्रिवन्मनसागृणानो अस्माकम् बोध्यभिता तनूनाम् पृतनाजितगुम् सहमानमग्निमुग्रगुम् हुवेम परमात्सधस्थात् स नः परिषदति दुर्गाणि विश्वाक्षामद्देवो प्रत्नोषि कमीढ्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सी स्वाम् चाग्ने तनुवम् पिप्रियस्वास्मभ्यम् च सौभगमायजस्वा भूरग्नये पृथिव्यै स्वाहा भुवो वायवेन्तरिक्षाय स्वाहा सुवरादित्याय दिवे स्वाहा भूर्भुवः सुवश्चन्द्रमसे नमो देवेभ्यः स्वधा पितृभ्यो भूर्भुवःसु वरोम् भूरन्नमग्नये पृथिव्यै स्वाहा भुवोन्नम् वायवेन्तरिक्षाय स्वाहा सुवरन्नमादित्याय दिवे स्वाहा भूर्भुवःसु वरन्न चन्द्रमसे दिग्भ्यः स्वाहा नमो देवेभ्य स्वधा पितृभ्यो भूरग्नये च पृथिव्यै च महते च स्वाहा भुवो वायवे चान्तरिक्षाय च महते स्वाहा सुवरादित्याय च दिवे च महते च स्वाहा भूर्भुवत्सु वश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा नमो देवेभ्य स्वधापितृभ्यो भूर्भुवःसु पाहि नो अग्नयेन से स्वाहा पाहि नो से स्वाहा यज्ञम् पाहि विभावसो स्वाहा सर्वं पाहि शतक्रतो स्वाहा यच्छन्दसामृषभो विश्वरूपश्छन्दो अभ्यश्चन्दागुस्याविवेशा सतागुंशिक्यः पुरो वाचोपनिषदिन्द्रो अज्येष्ठ इन्द्रियाय ऋषिभ्यो नमो देवेभ्यः स्वधा पितृभ्यो भूर्भुवः सुवरोम् नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणम् धारयिता भूयासङ्कर्णयो श्रुतम् माच्यो ओढ्वं ममामुष्य ओम् ऋतन्तपः सत्यन्तपः श्रुतम् तपः शान्तम् तपो दानन्तपो यज्ञस्तपो भूर्भुवः सुवर्ब्रह्मैतदुपा आस्यी तत्तपः यथा वृक्षस्य सम्पुष्पितस्य दूराद्गन्धो वा आत्येवम् पुण्यस्य कर्मणो दूराद्गन्धो वाति यथासि धाराम् कर्तेवहितामवक्रामेद्युवेयुवे ह वा विह्वलिष्यामि कर्तम् पतिष्यामीत्येवममृतादात्मानञ्जुगुप्सेत् अणोरणीयान्महतो महीयानात्मा गुहायान्निहितोऽस्य जन्तोः तमक्रतुम् पश्यति वीतशोको धातु प्रसादा आन्महिमानमीशम् सप्त प्राणा प्रभवन्ति तस्मात् सप्तार्चिषः समिधः सप्त इमे लोका येषु चरन्ति प्राणा गुहाशयान्निहिताः सप्त सप्ता अतः समुद्रा गिरयश्च सर्वे स्मात् सर्वरूपाः अतश्च विश्वा ओषधयो रसा आश्च येनैष भूतस्तिष्टत्यन्तर आत्मा ब्रह्मा देवानां पदवी कवीनाम् ऋषिर्विप्राणाम् मघिषो मृगाणाम् श्येनो गृध्राणागुस्वधितिर्वना नागुंसोमः पवित्रमद्येति रेभन्ने अजामेकाल्लोहितशुक्लकृष्णाम् बह्वीम् प्रजाम् जनयन्ती पुंसरूपाम् अजोह्येको जुषमाणोऽनुषेते जहा आत्येनाम् भुक्तभोगामजो ओन्यः हगुंसः शुचिषद्वसुरन्तरिक्षसद्धोतावेदिषदधितिर्दुरोऽणसत् नृषद्वरसदृतसद्व्योमसदब्जा भोजा ऋतजा अद्रिजा ऋतम् बृहत् यस्मा आज्जाता न ना परा नैव किञ्च नासय आविवेशभुवना निविश्वा प्रजापतिप्रजया संविधानस्त्रीणि अद्या नो देवसवितः प्रजावत्सा वी सौभगम् परा विश्वानि देवसवितर्दुरितानि परासुवा वा यद्भद्रं तन्म मधुवातारुतायते मधुक्षरन्ति सिन्धवः माध्वी ईर्णः सन्तोषधीः मधुमान्नो वनस्पतिर्मधुमागुम् अस्तु सूर्यः माध्वीर्गावो भवन्तु नः घृतं मिमिक्षे घृतमस्य यो निर्घृते श्रुतो घृतमुवस्य धामा अनुष्वधमावहमादयस्व स्वाहा कृतं वृषभवक्षि हव्यम् समुद्रादूर्मिर्मधुमागुम् उदारदुपागुम् शुना सममृतत्वमानटे घृतस्य नाम गुह्यञ्ज्यदस्ति जिह्वा देवा नाम मृतस्य नाभिः वयन्नाम प्रब्रवामा घृते नास्मिन् यज्ञे धारयामा नमोभिः उपब्रह्माश्रुण्वच्चस्य मानम् चतुःशृङ्गोऽत् गौरयेतत् चत्वारि शृङ्गात्रयोगस्य पादाद्वे शीर्षे सप्तहस्तासो अस्या त्रिधा बद्धो वृषभोरोरवीति महो देवो मत्यागुम् आविवेशा त्रिधाहितम् पणिभिर्गुह्यमानम् गविदेवासो घृतमन्वविन्दन् इन्द्रये कगुम् सूर्य एकञ्जानवेनादेकग्गुस्वधयानिष्टचक्षुः यो देवानाम् प्रथमम् पुरस्ताद्विश्वाधिको रुद्रो महर्षिः हिरण्यगर्भम् पश्यत जायमानपुंसनो देवः शुभया स्मृत्या संयुनक्तु यस्मात्परन्नापरमस्ति किञ्चिद्यस्मान्नानीयो न ज्यायो ओस्ति स्तब्धो दिवि तिष्ठत्येकस्ते पुरुषेण सर्वम् न प्रजया धनेन त्यागे नैके परेण नाकन्निहितम् गुहायाम् विभ्राजते यद्यतयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयोगाद्यतयः शुद्धसत्त्वा आह ते ब्रह्मलोके तु परामृतात् परिमुच्यन्ति सर्वे ए विपाप्मं विपाप्मम् परवे एष्वभूतम् यत्पुण्डरीकम् पुरमध्य तत्रापिदक्रम् गगनम् विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् यद्वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परः स महेश्वरः सहस्रशीर्षम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वन्नारायणम् देवमक्षरम् विश्वतः परमन्नित्यम् विश्वम् नारायणगुं हरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवति पतिं विश्वस्यात्मेश्वरगुं शाश्वतगुं शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायण परम् ब्रह्मतत्त्वन्नारायणः परः नारायणपरो ज्योतिरात्मा नारायणः परः यच्च किञ्चित् जगत्यस्मिन् दृश्यते एश्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगुम् समुद्रेऽन्तम् विश्वशम्भुवम् पद्मकोशप्रदीकाशगुम् हृदयम् अधो निष्ट्याविदस्त्यान्तु नाभ्यामुपरि हृदयम् तद्विजानीयाद्विश्वस्यायतनम् महते सन्ततगुम् शिराभिस्तुलम् बत्याकोशसन्निभम् तस्याम् ते सुषिरगुम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः सोऽग्रभुग् विभजन् तिष्ठन्नाहारमजरः कविः सन्तापयदि स्वम् देहमापादतलमस्तकम् तस्य मध्ये वह्निशिखा अणीयो ओर्ध्वा व्यवस्थितः नीलतो यदमध्यस्था विद्युल्लेखे बभास्वरा नीवारशूकवत्तन्वीपीताभा अस्यात्तनुपमाम् तस्यािखाया मध्ये परमा आत्मा व्यवस्थितः स ब्रह्मा शिवस्येन्द्रोऽक्षरः परमस्वराट् ऋतगुंसत्यम् परं ब्रह्मपुरुषम् कृष्णपिङ्गलम् ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः आदित्यो वा एष एतन्मण्डलन्तपतितदृचा ऋचस्तदृचा मण्डलपुंसरुचान् लोकोथय एष एतस्मिन्मण्डलेर्चिर्दीप्यते तानि सा मानि ससाम्नां लोकोथय एष एतस्मिन्मण्डलेर्चिषि पुरुषस्तानियजूगुंषिषयजुषान्मण्डलपुंसयजुषाल्लोकः सैषा त्रय्येव विद्यातपति ययेषोऽन्तरादित्येहिरण्मयः पुरुषः आदित्यो वै ते जवो जोपलञ्जशश्चक्षुश्रोत्रमात्मा मनो मन्युर्मनुर्मृत्युः सत्यो मित्रो वायुराकाशप्राणो लोकपालः कः किं कं तत्सत्यमन्नमायुरमृतो जीवो विश्वः कतमः स्वयम्भुः प्रजापतिः संवत्सर इति संवत्सरो सा वादित्यो य एष पुरुष एष भूतानामधिपतिर्ब्रह्मणः सायुज्यगुं स लोकतामाप्नोत्येतासामेव देवतानागुंसायुज्यगुं साष्टितागुं समानलोकतामाप्नोति य एवं वेदे एपत्युपनिषत् घृणिः सूर्य आदित्योमर्चयन्ति तपः सत्यम् अधुक्षरन्ति तद्ब्रह्म तदाप आपो ज्योतिरसोऽमृतम् सर्वो वै रुद्रस्तस्मै रुद्राय नमोऽस्तु पुरुषो वै रुद्रः नमो नमः विश्वम् भूतम्भुवनञ्चित्रम् बहुधा जातम् जायमानञ्च यत् सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमोऽस्तु कद्रुद्राय प्रचेतसे मीडुष्टमायतव्यसे वोचे मशन्तमगुंहृदे सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमोऽस्तु नमो हिरण्यबाघवे हिरण्यपतयेऽम्बिकापतय उमापतये नमो यस्य वैकङ्कत्यग्निहोत्र हवणीभवति प्रतिष्ठिता प्रत्येवास्याहुतयस्तिष्ठन्त्यथो प्रतिष्ठित्यै कृणुष्वपाज इति पञ्च अदितिर्देवा गन्धर्वा मनुष्या आ पितुरोऽसुरास्तेषाकुम् माता मेदिनी महती महि सा भित्री गायत्री जगत्युर्वी पृथिवी बहुला विश्वा भूता कतमाकाया सा सत्येत्यमृतेति वसिष्ठः आपो वा इदगुं सर्वं विश्वा भूतान्यापः प्राणा वा आपः पशव आपो मृतमापोन्नमापः सम्राडापो विराडापः स्वराडापश्चन्दा गुस्यापो ज्योतिगुश्यापः सत्यमापः सर्वा देवता आपो भूर्भुवः सुवराप ओम् आपः पुनन्तु पृथिवीम् पृथिवी पूता पुनातु माम् पुनन्तु ब्रह्म नस्पतिर्ब्रह्म पूता पुनातु माम् पुनन्तु मामापो सताम् च अग्निश्च मामन्युश्च मन्युपतयेश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्ताम् यदन्हा पापमकारुषम् मनसा वाचाहस्ताभ्याम् पद्भ्यामुदरेण शिज्ञा अहस्तदबलुम्पतु यत्किञ्चदुरितम् मयि इदमहम् माममृतयोनौ सत्ये ज्योतिषिजुहोमि स्वाहा सूर्यश्च मामन्युश्च मन्युपतयश्च मन्युघृतेभ्यः पापेभ्यो रक्षन्ताम् यद्रात्र्या पापमकारुषम् मनसा वाचा हस्ताभ्याम् पद्भ्यामुदरेण शिष्ट्याम् रात्रिस्तदवलुम्पतु यत्किञ्चदुरितम् मयि इदमहम् माममृतयोनौ सूर्ये ज्योतिषिजुहोमि स्वाहा आयातु वरदा देव्यक्षरम् ब्रह्म सम्मितम् गायत्री इच्छन्दसाम् मातेदम् ब्रह्मजुषस्वनः ओजोऽसि सहोसि बलमसिभ्राजोऽसि देवानां धामनामासि विश्वमसि विश्वायुः सर्वमसि सर्वायिरभिभूरों गायत्रीमावाहयामि ॐ भूः ॐ भुवः ओगुं सुवः ॐ महः ॐ जनः ॐ सत्यम् ॐ तत्सपितुर्वरे एण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॐ आपो ज्योतिरसो मृतं ब्रह्म भूर्भुवत्सुवरोम् ॐ भूर्भुवत्सु वर्म हर्जनस्तपः सत्यं तद्ब्रह्म तदाप आपो ज्योतिरसो मृतं ब्रह्म भूर्भुवत्सु वरोम् ओ ं तद्ब्रह्मा ओ ं तद्वायुः ॐ ऊं तदात्माम् ओ ऊं तत्सत्यम् ओ तत्सर्वम् ओ ं तत्पुरो नमः उत्तमे शिखरे देवी भूम्याम् पर्वतमूर्धनि ब्राह्मणे एभ्यो ह्यनुज्ञानम् गच्छ देवि यथा सुखम् ओमन्तश्चरति भूतेषु गुहायाम् विश्वमूर्तिषु त्वं यज्ञस्त्वं विष्णुस्त्वं वषट्कारस्त्वगुं रुद्रस्त्वं ब्रह्मा त्वं प्रजापतिः अमृतोपस्तरणमसि प्राणेन्विष्टोमृतञ्जुहोमि प्राणाय स्वाहा आ अपानेन विष्टो मृतञ्जुहोमि अपानाय स्वाहा आ व्यानेऽन्विष्टोमृतञ्जुहोमि व्यानायस्वाहा अ उदाने निविष्टो मृतञ्जुहोमि उदानाय स्वाहा आ समाने निविष्टो मृतञ्जुहोमि समानाय स्वाहा आ ब्रह्मणि म आत्मा मृतत्वाय प्राणे निविष्टो मृतञ्जुहोमि शिवो माविशाप्रदाहाय प्राणाय स्वाहा अपाने निविष्टो मृतञ्जुहोमि शिवो मा विशाप्रदाहाय अपानाय व्यानेनिविष्टोमृतञ्जुहोमि शिवो मा विशाप्रदाहाय व्यानायस्वाहा अ उदाने निविष्टोमृतञ्जुहोमि शिवो मा विशाप्रदाहाय उदानाय स्वाहा आ समाने निविष्टोमृतञ्जुहोमि शिवो मा विशाप्रदाय समानायस्वाहा आ ब्रह्मणि महात्मामृतत्वाय अमृतापिधानमसि श्रद्धायाम् प्राणे निविश्यामृतगुम् हुतम् प्राणमन्नेनाप्यायस्वा अपाने निविश्यामृतगुम् हुतम् अपानमन्नेनाप्यायस्व याने निविश्यामृतगुं हुतम् यानमन्येनाप्यायस्व उदाने निविश्यामृतगुं हुतम् उदानमन्येनाप्यायस्व समाने निविश्यामृतगुं हुतम् समानमन्येनाप्यायस्वा ब्रह्मणि महात्मा मृतत्वाय प्राणानाम् ग्रन्थिरसि रुद्रो अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठञ्च समाश्रितः ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक् मेधा देवी जुषमाणा न आगा आत् विश्वाची भद्रासुमनस्यमाना त्वया जुष्टा जुषमाणा दुरुक्ता आन् बृहद्वदेम त्वया जुष्टश्चित्रम् विन्दते वसुसानो जुषस्वद्रविणेन मेधे मेधाम् मयिन्द्रो ददातु मेधाम् देवी सरस्वती मेधाम् मे अश्विनावुभावा धत्ताम् पुष्करस्रजा अप्सरासुचया च या मेधागन्धर्वेषु च यन्मनः दैवि मेधामनुष्यजा सा माम् मेधासुरभिर्जुषताम् आ मां मेधासुरभिर्विश्वरूपा हिरण्यवर्णा जगति जगम्या ऊर्जस्वती पयसा पिन्वमाना सा मां मेधा सुप्रतीकाजुषतां सद्यो जातं प्रपद्यामि सद्यो जाताय वै नमः भवे भवे नातिभवे भजस्व मां भवोद्भवाय नमः वामदेवाय नमो अ नमो रुद्राय न मक्कालाय नमो बलविकरणाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः अघोरे एभ्योऽथ घोरे एभ्यो घोरघोरतरेभ्यः सर्वतः सर्वे एभ्यो, एभ्यो। नमस्तेऽयस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदया ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा ब्रह्मा शिवो मे यस्तु सदा शिवोम् ब्रह्म मे तु मां मधुमेतुमां ब्रह्ममेव मधुमेतुमां यास्ते सोम प्रजावत्सोऽभिसोऽहम् दुष्वप्नहन्दुरुष्वः यास्ते सोम प्राणागुस्ताञ्जुहोमि तृसुपन्नमयाचितम् ब्राह्मणाय दद्यात् ब्रह्महत्याम् वा एते घ्नन्ति येब्राह्मणास्तृसुपर्णम् पठन्ति ते सोमम् प्राप्नुवन्ति आसहस्रात् पङ्क्तिम् पुनन्ति ॐ ब्रह्म मेधया आ मधुमेधया आ ब्रह्ममेव मधुमेधया आद्या नो देवसवितः प्रजावत्सा विसौभगम् परा दुष्वप्नियगुंसु वा विश्वानिदेव सवितर्दुरिता निपरासु वा यद्भद्रं तन्म आसु वा मधुवातारुता यते मधुक्षरन्ति माध्वी इर्नः मधुनक्तमुतोषसि मधु मत्पार्थिवगुं मधुद्यौरस्तु न पिता मधुमान्नो वनस्पतिर्मधुमागुम्मस्तु सूर्यः माध्वीर्गावो भवन्तु नः य इमम् ब्राह्मणाय दद्यात् भ्रूणहत्याम् वा एते घ्नन्ति पठन्ति ते, ते सोमम् प्राप्नुवन्ति आसहस्रात् पङ्क्तिम् पुनन्ति ॐ ब्रह्म मेधवा आ मधुमेधवा आ ब्रह्ममेव मधुमेधवा आ ब्रह्मादेवानां पदवीकवीना ऋषिर्विप्राणां महिषो मृगाणाम् श्येनो गृध्राणागुस्वधितिर्वनानागुंसोमः पवित्रमत्येति रेभन्ने हगुंसुचिषद्वसुरन्तरिक्षसद्धोतावे दिषदधितिर्दुरोणसत् नृषद्वरसदृतसद्भोमसदब्जा गोजा ऋतजा अद्रिजा ऋतम् बृहत् य ॐ प्राणापानव्यानोदानसमाना मे शुध्यन्ताञ्ज्योतिरहं विरजाभिपाप्मा भूयासग्गस्वाहा वाङ्मनश्चक्षुश्रोत्रजिह्वाघ्राणरेतो बुद्ध्याकूतिस्सङ्कल्पा मे शुध्यन्ताञ्ज्योतिरहं विरजाभिपाप्मा भूयासग्गुस्वाहा अ शिरः पाणिपादपार्श्वपृष्ठोदरजङ्घशिस्न्योपस्थपायवो मे शुध्यन्ताम् ज्योतिरहम् विरजाभि पाप्मा भूया सग्ग स्वाहा आ त्वक्चर्ममागुम्सरुधिरमेदोऽस्थिमज्जामे शुध्यन्ताम् ज्योतिरहम् विरजाभि पाप्मा भूया सद्गस्वाहा आ शब्दस्पर्शरूपरसगन्धा मे शुध्यन्तां ज्योतिरहं विरजाभिपाप्मा भूया अपृथिव्यप्तेजो वायुवाकाशा मे शुध्यन्तां ज्योतिरहं विरजाभिपाप्मा भूयासग्गु स्वाहा अ अन्नमयप्राणमय मनोमयविज्ञानमयानन्दमया मे शुध्यन्ताञ्ज्योतिरहं विरजाभिपाप्मा भूयासग्गु स्वाहा आ विविट्यै स्वाहा आ घशोत्काय स्वाहा आ उत्तिष्ठपुरुषहरे लोहितपिङ्गळाक्षि देहि देहि ददापयिता मे शुध्यन्ताञ्ज्योतिरहं विरजा भूया सग्गु स्वाहा स्वाहा सत्यं परम्परगुंसत्यगुं सत्येन न सुवर्गाल्लोकाच्च वन्ते कदाचन सतागुं हि सत्यम् तस्मात् सत्ये रमन्ते तपैति तपो नानशनात् परं यद्धि परन्तपस्तद्दुर्धर्षन्तद्दुराधर्षन्तस्मात्तपसि रमन्ते दमैति नियतम् ब्रह्मचारिणस्तस्माद्दमे रमन्ते शमैत्यरण्ये मुनयस्तस्माच्छमे रमन्ते दानमिति सर्वाणि भूतानि प्रशगुंसन्ति दानान्नाति दुष्करन्दस्माद्दाने रमन्ते धर्म इति धर्मेण सर्वमिदम् परिगृहीतम् धर्मान्नाति दुश्चरन्दस्मात् धर्मे रमन्ते प्रजन इति भूयागुंसस्तस्माद्भूयिष्ठाः प्रजायन्ते तस्माद्भूयिष्ठा प्रजनने रमन्तेऽग्नय इत्याहतस्मादग्नय आधातव्या अग्निहोत्रमित्याहतस्मादग्निहोत्रे रमन्ते यज्ञ इति यज्ञे न हि देवा दिवम् गतात्तस्मात् यज्ञे रमन्ते मा नसमिति विद्वागुंसस्तस्मात् विद्वागुंस एव मानसे रमन्ते न्यास इति ब्रह्मा ब्रह्मा हि परः ब्रह्मा तानि वा एतान्यपराणि तपागुंसिन्यास यद्य एवं वेदे एत्युपनिषदे प्राजावत्यो हारुणिः सुपर्णेयः प्रजापतिम् पितरमुपससारकिम् भगवन्तः परमम् वदन्तीति तस्मै प्रोवाच सत्येन वायुरावाति सत्येनाधित्यो रोचते दिवि सत्यम् वाचः प्रतिष्ठा सत्ये सर्वम् प्रतिष्ठितम् तस्मात् सत्यम् परमम् वदन्ति तपसा देवा देवतामग्र आयन्तपसर्षयः सु वरन्वविन्दन्तपसा सपत्नान् प्रणुदा मराति स्तपति सर्वम् प्रतिष्ठितम् तस्मात्तपः परमम् वदन्ति दमेन दान्ता किल्बिषमवधून्वन्ति दमेन ब्रह्मचारिणः सुवरगच्छन् दमो भूतानाम् दुराधर्शन् दमे सर्वं प्रतिष्ठितम् तस्माद् दमः परमम् वदन्ति शमेन शान्ताः शिवमाचरन्ति शमेन नाकम् मुनयोऽन्वविन्दन् शमो भूतानाम् दुराधर्षगुम् शमे सर्वम् प्रतिष्ठितम् तस्माच्चमः परमम् वदन्ति दानै यज्ञानाम् वरूथन् दक्षिणालोके दाता रगुम् सर्वभूतान्युपजीवन्ति दानेनारातीरपानुदन्त दानेन द्विषन्तो मित्रा भवन्ति दाने सर्वम् प्रतिष्ठितम् तस्माद्दानम् परमम् वदन्ति धर्मो विश्वस्य जगदप्रतिष्ठा लोके धर्मिष्टम् प्रजा उपसर्पन्ति धर्मेण पापमपनुदति धर्मे सर्वम् प्रतिष्ठितम् तस्माद्धर्मम् परमम् वदन्ति प्रजननं वै प्रतिष्ठा साधु प्रजाया आस्तन्तुम् तन्वा न पितृणाम नृणो भवति तदेव तस्या नृणन्तस्मात् प्रजननम् परमम् वदन्त्यग्नयो विद्या देवया नः पन्था गार्हपत्यर्पृथिवीरथन्तरमन्वा हार्यपचनो यजुरन्तरिक्षम् वाम देव्यमाहवनीयः सामस् लोको बृहत्तस्मादग्नीन् परमम् वदन्त्यग्निहोत्रगुम् सायम् प्रातर्गृहाणान्निष्कृतिम् स्विष्टगुम् सुभूतम् यज्ञक्रतूनाम् प्रायणगुम् सुवर्गस्य लोकस्य ज्योतिस्तस्मादग्निहोत्रम् परमम् वदन्ति यज्ञ <Sess> इति यज्ञेन हि देवादिवङ्गता यज्ञेनासुरानपानुदन्त यज्ञेन द्विषन्तो मित्रा भवन्ति यज्ञे सर्वं प्रतिष्ठितं तस्मात् यज्ञं परमं वदन्ति मानसं वै प्राजापत्यं पवित्रं मानसे न मनसा साधु पश्यति मानसा ऋषयः प्रजा असृजन्त मानसे सर्वं प्रतिष्ठितं तस्मा अन्मानसं परमं वदन्ति न्यास इत्याहुर्मनीषिणो अब्रह्माणम् ब्रह्माविश्वः ब्रह्मा कदमस्व यम्भुः प्रजापतिः संवत्सरैति संवत्सरो सा वादित्यो य एष आदित्ये पुरुषः स परमेष्टि ब्रह्मात्मा याभिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति पर्जन्येनौषधि वनस्पदय प्रजायन्त ओषधि वनस्पतिभिरन्नम् भवत्यन्येन प्राणेर्बलं बलेन तपस्तपसा श्रद्धा श्रद्धया मेधा मेधया मनीषा मनीषया मनो मनसा शान्तिः शान्त्या चित्तञ्चित्ते न स्मृतिगुस्मृत्या स्मार गुस्मारेण विज्ञानम् विज्ञानेनात्मानम् वेदयति तस्मादन्नन्तदन् सर्वा अन्येतानि ददात्यन्ना आत् प्राणा भवन्ति भूतानाम् प्राणैर्मनो मनसश्च विज्ञानम् विज्ञानादानन्दो ब्रह्म योनिः स वा पुरुषः पञ्चधा पञ्चात्मा येन सर्वमिदम् प्रोतम् पृथिवी चान्तरिक्षम् च द्यौश्च दिशश्चावान्तरदिशाश्च स वै सर्वमिदम् जगत्स च स भव्यञ्जिज्ञासक्लृप्तर्दजारयिष्ठा श्रद्धा सत्यो महस्वान्तमसो परिष्टात् ज्ञात्वा तमेवं मनसा हृदा च भूयो न मृत्युमुपयाहि विद्वान् तस्मा अन्यासमेषान्तपसामतिरिक्तमाहुः वसुरण्यो विभूरसि प्राणे त्वमसि सन्धाता ब्रह्मन्त्वमसि विश्वसृक्तेजोदास्त्वमस्यग्नेर्वर्चोदास्त्वमसि सूर्यश्च जुम्नोदास्त्वमसि चन्द्रमस उपयामगृहीतोऽसि ब्रह्मणे ए त्वामहस ओमित्यात्मानं युञ्जीतैतद्वै महोपनिषदं देवानाङ्गुह्यञ्ज एवं वेद ब्रह्मणो महिमानमाप्नोति तस्मात् ब्रह्मणो महिमानमित्युपनिषत् तस्यैवम् विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिध्वमुरो मेधिर्लोमानि बर्हिर्भेदिशिखा हृदयञूपक्काम आज्यम् मन्युः पशुस्तपोऽग्निः शमयिता दक्षिणावाग्घोता आप्राणमुद्गाता चक्षुरद्वर्युर्मनो ब्रह्मा श्रोत्रमग्नीद्या बध्रियते सा दीक्षा यदश्नाति यत्पिबति तदस्य सोमपानं यद्रमते तदुपसदो यत् यद सञ्चरत्युपविशत्युत्तिष्ठते च सप्रवर्ग्यो यन्मुखम् तदाहवनीयो यदस्य विज्ञानन्तज्जुहोति यत् सायम् प्रातर्मध्यं दिनञ्जतानि सवनानि ये अहोरात्रे ते दर्शपूर्णमासौ ये एर्धमासाश्च मासा आश्च ते चातुर्मास्यानि य ऋतवस्ते पशुबन्धाये संवत्सराश्च परिवत्सराश्च ते हर्गणाः सर्ववेदसं वा एतत्सत्रम् यन्मरणन्तपवधृत एतद्वेजरामर्यमग्निहोत्रगुंसत्रम् य एवम् विद्वानुदगयने प्रमीयते देवानामेवमहिमानम् गत्वादित्यस्य सायुज्यम् गच्छत्यथयो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसः सायुज्यम् गच्छत्येतो वै सू ओर्जा चन्द्रमसो ओर्महिमानौ ओ ब्राह्मणो विद्वानभिजयति तस्माद्ब्रह्मणो महिमानमाप्नोति तस्माद्ब्रह्मणो महिमानमित्युपनिषत् सहनाववतु सहनौ भुनक्तु सहवीर्यम् करवावहै तेजस्विनावधीतमस्तु मा ॐ शान्ति्याः हरिः ॐ यदक्षरपदभ्रष्टम् मात्राहीनम् च यद्भवेत् तत्सर्वम् क्षम्यताम् देवनारायण नमोऽस्तु ते वनमालीगदीशार्ङ्गी शङ्खी चक्री च नन्दकी श्रीमान्नारायणो विष्णुर्वासुदेवोऽभिरक्षतु नमामि नारायण पादपङ्कजं करोमि नारायणपूजनं सदा वदामि नारायण नामनिर्मलं स्मरामि नारायणतत्त्वमव्ययम्